अथ चतुरधिकशततमः सर्गः वसिष्ठः पुरतः कृत्वा दाराम् दशरथस्य च अभिचक्रामतम् देशम् रामदर्शनतर्शितः राजपत्न्यश्च गच्छन्त्यो मन्दम् मन्दाकिनीम् प्रति चदृशस्तत्र तत्तीर्थम् रामलक्ष्मणसेवितम् कौसल्याबाष्पूर्णेन मुखेन परिशुष्यत सुमित्रामब्रवीदीनाम् याश्चान्या राजयोषितः इदम् तेषामनाथानाम् क्लिष्टमक्लिष्टकर्मणाम् वने प्राक्कलनम् तीर्थम् ये ते निर्विषयीकृताः इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः स्वयम् हरति सौमित्रिर्मम पुत्रस्य कारणात् जघन्यमपि ते पुत्रः कृतवान् न तु गर्हितः भ्रातुर्यदर्थरहितम् सर्वं तद्गर्हितम् गुणैः अद्यायमपि ते पुत्रः क्लेशा नाम तथोचितः नीचानर्थसमाचारम् सज्जम् कर्म प्रमुञ्चतु दक्षिणाग्रेषु दर्भेषु साददर्शमहीतले पितुरिङ्गुदिपिण्याकम् यस्तमायतलोचना तम् भूमौ पितुरार्तेरन्यस्तम् रामेण वीक्ष्यसा उवाच देवी कौसल्या सर्वा दशरथस्त्रियः इदमिक्ष्वा कुनाथस्य राघवस्य महात्मनः राघवेण पितुर्दत्तम् पश्यतैतद्यथाविधि तस्य देवसमानस्य पार्थिवस्य महात्मनः नैतदौपैकम् मन्ये भुक्तभोगस्य भोजनम् चतुरन्ताम् महीम् भुक्त्वा महेन्द्रसदृशो भुवि कथमिङ्गुदिपिण्याकम् स भुङ्क्ते वसुधाधिपः अतो दुःखतरम् लोके न किञ्चित् प्रतिभाति मे यत्र रामः पितुर्द्यादिङ्गुदीक्षोदमृद्धिमान् रामेणेङ्गुदिपिण्याकम् पितुर्दत्तम् समीक्ष्य मे कथम् दुःखेन हृदयम् यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः एवमार्ताम् स पत्न्यस्त जग्मुराश्वास्यताम् तदा ददृशश्चाश्रमे रामम् स्वर्गच्युतमिवामरम् तम् भोगैः सम्परित्यक्तम् रामम् सम्प्रेक्ष्यमातरः वार्तामुचुरश्रूणि सस्वरम् शोककर्षिताः तासाम् रामः समुत्थाय जग्राहचरणाम्बुजार मातॄणाम् मनुजव्याघ्रः सर्वासाम् सत्यसङ्गरः ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः प्रममार्जूरजः पृष्ठा ग्रामस्यायतलोचनाः सौमित्रिरपिताः सर्वा मातॄः यथा रामे तथा तस्मिन् सर्वा ववृतिरे स्त्रियः वृत्यन्तशरथाज्जाते लक्ष्मणे शुभलक्षणे सीतापि चरणाम् स्तासामुपसङ्गृह्य दुःखिता श्वश्रूणामश्रुपूर्णाक्षी सम्बभूवाग्रतस्थिता ताम् परिष्वज्य दुःखार्ता माता दुहितरम् यथा वनवासकृता दीनाम् कौसल्या वैदेहराजन्यसुता स्नुषा दशरथस्य च रामपत्नीकथम् दुःखम् सम्प्राप्ता विजने वने पद्ममातपसन्तप्तम् परिक्लिष्टमिवोत्पलम् काञ्चनम् रजसाध्वस्तम् क्लिष्टम् चन्द्रमिवाम्बुदैः मुखम् ते प्रेक्ष्य शोको दहत्यग्निरिवाश्रयम् भृशम् मनसि वैदेह ब्रुवन्त्यामेव वार्तायाम् जनन्याम् भरताग्रजः पादावासाद्य जग्राह वसिष्ठस्य च राघवः पुरोहितस्याग्नि समस्य तस्य वै बृहस्पतेरिन्द्र इवामरादिपः प्रगृह्य पादौ सुसमृद्धते च सहैव राघवः ततो जघन्यम् सहितैस्व मन्त्रिभिः पुरप्रधानैश्च तथैव सैनिकैः जनेन धर्मज्ञतमेन धर्मवानुपोपविष्टो भरतस्तदाग्रजम् उपोपविष्टस्तु तदातिवीर्यवाम्स्तपस्विवेषेण समीक्ष्य राघवम् श्रिया ज्वलन्तम् भरतः कृताञ्जलिर्यथा महेन्द्रः प्रयतः प्रजापतिम् uh... किमेष तीव तस्यार्यजनस्य तत्त्वतो बभूव कौतूहलमुत्तमम् तदा स राघवः सत्यधृतिश्च लक्ष्मणो महानुभावो भरतश्च धार्मिकः मृता सुहृद्भ्यश्च विरेजिरे ध्वरे यथा सदस्यैः सहितास्त्रयोऽग्मयः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्या चरधतम सर्ग